श्रीकरये नमः अथ विंशोऽध्यायः उद्धव उवाच विधिश्च प्रतिषेधश्च निगमो हीश्वरस्य ते अवेक्षतेरविन्दाक्ष गुणं दोषं च कर्मणां वर्णाश्रमविकल्पं च प्रतिलोमानुलोमजं द्रव्यद्देशवयःकालान् स्वर्गं नरकमेव गुणदोषपिधा दृष्टिम् अन्तरेण वचस्तव निःश्रेयसं कथं नृणां निषेधविधिलक्षणं पितृदेवमनुष्याणां वेतश्चक्षुस्तवेश्वर श्रेयस्त्वनुबलब्धेऽर्थे साध्यः साधनयोरपि गुणदोषभिता दृष्टे निगमात्तेन हि स्वतः निगमेनापवादश्च भिधाय इति ह भ्रमः श्रीभगवानुवाच योगास्त्रयो मया प्रोक्ता नृणां श्रयो वितेत्सयां ज्ञानं कर्म च भक्तिश्च नोपायोऽन्योऽस्ति कुत्र चेत् निर्विण्णानां ज्ञानयोगो न्यासिनामिह कर्मसो तेष्वनिर्विण्णचित्तानां कर्मयोगस्तु कामिनां यदृश्च या मत्कथाधौ जादश्रद्धस्तु यः पुमान् न ना निर्विण्णो नातिशक्तो भक्तियोगोऽस्य सिद्धितः तावत्कर्माणि कुर्वेत न निर्विद्येत यावत मत्कथाश्रवणाधौ वा श्रद्धा यावन्न जायते स्वधर्मस्थो यजन्यज्ञे रदाशिकाम उद्धव न याति स्वर्गनरको यद्यन् या यन्यन्य या समाचरेत् अस्मिन् लोके वर्तमान स्वधर्मस्थो अनघः शुचिः ज्ञानं विशुद्धमाप्नोति मद्भक्तिं पायदृश्चया स्वर्गिणोऽप्येतमिच्छन्ति लोकं निरयिणस्तथा साधकं ज्ञानभक्तिभ्याम् उभयं तत्त साधकं ननरस्वर्गतिं काङ्क्षेन् नारकीं वा विचक्षणः नेमं लोकं च काङ्क्षेत देखावेशात् प्रमात्यति एतत् विद्वान् पुरामृत्यो अभवाय घटेत सः अप्रमर्थयितं ज्ञात्वा मर्त्यम् अप्यर्थसिद्धितं सिद्धिदं सिध्यमानं यमैरेतै कृतनीतमुद्दृश्य क्षेमं यातिहोरार्त्रैश्चित्यमानं भुत्वायुर्भयवेपतुः मुक्तसङ्गः परं भूत्वा निरीह उपशां यति नृतेहमाद्यं सुलभं सुदुर्लभम् प्लवं सुकल्पं गुरुकर्णधारं मयानुकूलेन न भस्वतेरितं पुमान् भवाब्धिं न तरेत्स आत्महा यदारम्भेषु निर्विण्णो विरक्तत्संयतेन्द्रियः अभ्यासेनात्मनो योगी धारयेत चलं मनः धार्यमाणं मनो अधन्धृतोनुरोधेन मार्गेण आत्मवसं नयेत् मनोगतिं न विसृजेझित प्राणो जितेन्द्रियः सत्त्वसम्पन्नया बुद्ध्या मन आत्मवसं एष वै परमो योगो मनसत्सङ्ग्रहस्मृतः कृतयज्ञत्वम् अन्विच्छन् धं यस्येवार्वतो मुकुः साङ्ख्येन सर्वभावानाम् प्रतिलोम अनुलोमतः भवाप्ययावनोऽध्यायेन् मनो यावत् प्रसीदति निर्विण्णस्य विरक्तस्य पुरुषस्योक्तवेदिनः मनस्त्यजति धौरात्म्यं चिन्तितस्यानुचिन्तया यामादिभिर्योगपतैरान् वीक्षिक्या च मामर्षोपासनाभिर्वा नान्यैर्योग्यं स्मरेन्मनः यदि कुर्यात्प्रमादेन योगी कर्म विगर्हितं योगै नान्यक्तत्र कदाचन स्वे स्वेदिकारे कर्माणां जात्यशुद्धानां येन नियमः कृतः गुणदोषविधानेन सङ्घानां जातश्रद्धो मत्कथासु निर्विण्णः सर्वकर्मसु वेददुःखात्मकान् कामान् परित्योगेऽप्यनीश्वरः ततो भजेत मां प्रीत श्रद्धालुर्दृटनिश्चयः जुषमाणाश्च तान् कामान् दुःखो धर्काश्च गर्हयन् प्रोक्तेन भक्तियोगेन भजतो मासकृन्मुनेः कामा हृदय्या नश्यन्ते सर्वे मयि हृति स्थिते विद्यते हृदयग्रन्थेश्चिन्त्यन्ते सर्वसंशयाः क्षीयन्ते सास्य कर्माणि मयि दृष्टे किलात्मनि तस्मान्मद्भक्तियुक्तस्य योगिनो वै मदात्मनः न ज्ञानं न च वैराग्यं प्रायश्रेयो भवेदिह यत्कर्मभिर्यत्तपसा ज्ञानवैराग्यतश्च यत् योगेन दानधर्मेण श्रेयोभि इतरैरपि सर्वं मद्भक्तियोगेन मद्भक्तो लभदेञ्जसा स्वर्गापवर्गमत्ता मद्धाम कथञ्चित् यदि वाञ्छति न साधवो धीरा भक्ता ह्येकान्तिनो मम वाञ्छन्त्यपि मया दत्तं कैवल्यम् अपुनर्भवं नैरपेक्ष्यं परं प्राहुर्निःश्रेयसमनल्पकं तस्मान्निराशिषो भक्तेर्निरपेक्षस्य मे भवेत् न मय्येकान्तभक्तानां गुना साधूनां समचित्तानां बुद्धे परमुपेयुषान् एवमेतान् मया दिष्टान् अनुस्तिष्ठन्ति मेपदः क्षेमं विन्दन्ति मत्स्थानं यद्ब्रह्मपरमं विदुः इति श्रीमद्भागवते महापुराणे एकादशस्कन्ते विंशोऽध्यायः सर्वत्र गोपिका जीवनस्मरणं गोविन्द गोविन्द सद्गुरोनाथमहराजकी जै